श्रीरङ्गनाथपादुकासहस्रं प्रभाव त्रिप्रभावपद्धतिः अनुष्टु वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् उन्नतानामवनतिर्नदानां यत्र चोन्नतिः वसन्ततिलकम् निःशेषमम्बरतलं यदि पत्रिका स्यात्सप्तार्णवी यदि समेत्य मषी भवित्री वक्तासहस्रवदनः पुरुषस्वयं चेल्लुक्येदरङ्गपदिपादुकयोः प्रभावः वेदोपबृंहणकुतूहलिनानिबद्धम् विश्वम्भराश्रुतिभवेन महर्षिणा यत् व्यासेन यच्च मधुसूदनपादरक्षे द्वे चक्षुषी त्वदनुभवमवेक्षितुं नः प्रत्यक्षयन्ति परिशुद्ध धियो यथावद् रामायणे रघुपुरन्दरपादरक्षे शश्वत् प्रपञ्चिदमिदम् परयैव वृत्त्या सङ्क्षेपविस्तरदशासु तवानुभावम् अल्पश्रुतैरविजनैरनुमीयसे त्वं रङ्गेशपादुनियदं निगमोपगीता सारं तदर्थमुपबृंहयितुं प्रणीतम् रामायणं तव महिं नियधः प्रमाणम् शार्दूलविक्रीडितम् तिष्ठन् दुःह्रुदयस्ततोऽपि महिदं जागर्ति तत्पादुके तत्तादृक्प्रधनाय यस्यासीदरविन्दसम्भववधू मञ्चीरसिञ्चारवस्पर्धा दुर्धरपादबद्धभतिर्वल्मीकजन्मा कविः भक्तिप्रह्वपुरप्रभञ्चनजडा वाडी वाडीसनेढस्फुरचूडारग्वधवासना परिमलस्त्याने स्तुमःपादुके रङ्गक्षोणिभृदङ्घ्रिपद्मयुगली पूर्णप्रपत्तेः फलं निश्चिन्वन्ति विपश्चिदशमधना नित्यं यदुक्तं सनम् माधर् माधवपादुके तव गुणान् कस्थोधुमस्तोकधीः कोडीरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् अन्योन्यं क्षिपतामहं प्रथमिका सम्मर्दकोलाहलं विश्वसेन विहारवेत्रलधिका स्तम्भश्चिराल्लुम्बति योषिद्भूतदृशन्ध्यपोठशस्तेमानि वैमानिकस्रोदस्विन्युपलम्भनानि भसिदो दञ्चत्परीक्षिन्ति च दूत्यादिष्वपि दुर्वचांसिपदयो कृत्यानि मत्वेव यद्धत्ते तत्प्रणयम् तदेव चरणत्राणं वृणेरङ्गिणः वन्दे तन्मधुकैडभारिपदयोर्मित्रं पदत्रद्वयं यत्तद्भक्तिभरानते न शिरसा यत्र द्वित्रब्रह्मविनाडिकावधिपदव्यत्या स शङ्काभरत्रासोत्कम्भदशाविसंस्थूलधृदिस्त्रैविष्टपानां गणः पस्माकान्तपदान्तरङ्गविभवोदृक्तं पदत्रं भजे यद्भक्त्या नमतां त्रिविष्ट दां चूडापदेष्वर्पिदं नित्यापीदनकेन्दुदीधिसुधा सन्दोहमुच्चैर्वमत्यन्तर्नूनमन्दमन्दिकलगच्छेशा पढच्चत्मना तद्विष्णोः परमं पदत्रयुगलं त्रय्यन्तपर्यन्तकम् चिन्तातीदविभूतिकं विदरदुच्छ्रेयांसि भूयांसि नः यद्विक्रान्तिदशासमुद्धितपदप्रस्यन्ति पादश्विनी सख्येनेव सदा न तस्य तनुदे मौलौ स्थितिं शूलिनः अम्बुन्यम्बुनिधेरनन्यगदिभिर्मी नैः कियद्गम्यते क्लेशेनापि कियद्व्यलङ्किरभसोत्तुङ्गैप्लवङ्गेश्वरैः विज्ञादा कियदि पुनः क्षुदिभृदा मन्देन गम्भीरदा किं तैः केशवपादुका गुणमहाम् बोधेस्तडस्था वयम् मालिनि पदकमलरजोभिर्वासिदे रङ्गभर्तुः परिचितनिगमान्ते पादुगे धारयन्तः अविदितपरिपाकं चन्द्रमुक्तं स यन्ते परिणदभुवनं तत्पद्ममध्यासदेवा सकृतविभुवनेऽस्मिन् शार्घिणः पादुके त्वां मनुजमनुवहन्तं देहबन्धव्यपाये उपचरति यथार्हं देववर्गस्त्वदीयः सदुनियमिदभृत्यो जोषमास्ते कृतान्तः पदसरसिजमे दत्पादुके रङ्गभर्तुः प्रतिनिधिपदवीं ते गाहदे स्वेन भूम्ना तदिदमपरथा चेत्तिष्ठतस्तस्य नित्यं विदितार्थास्त्वां भजन्ते महान्तः श्रुतिशिशूं कर्मण चोदितादिनीश नाधि गुम क्षमा परहसदि मुरारे पादुक बालिशाना पशुवधपरीशेषा पंडिजनाम यनयुमलमघ्यम दैत्यजिपादे नमदिमहति द नागसिन्धोर्विशीर्णाः मुहुरहिपदिचूडा मौलिरत्नाभिखादात् परिणतलखिमानः पादसा मूर्मयस्ते पदसरसिजयोस्त्वं पादुके रङ्गभर्तुर्मनसि मुनिजनानां मौलिभागे श्रुतीनाम् वचसी च सुकर्तसेंदीदमगदम ते शाश्वत वैश्व्यं पिसर विनता मूर्ध् दुर्वर्ण पंक्ति पिणमयसी शौरे पादुके सुवर्ण कुहकजन विदूरे सत्थे ले खुल विदितस्ते कोऽप्यसौ धादुवादः बलिमथनविहाराद्वर्धमानस्य विष्णोरखिलमधिपदद्भिर्विक्रमैरप्रमेयः अवधिमनधिगच्छन् पापराशिर्मधीयः समजनिपदरक्षे सावधिस्त्वन्महिम्ना तडभुवि यमुनायास्तस्तुषीयि निवेशाद्भजति निगमशाखा पदकमलयुगं तत्पादुके रङ्गभर्तुस्त्वयि शिरसि विनिहितायां भक्तिनम्रैर्भवत्याम् सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति मधुरिपुपदरक्षे यद्वशे नैव तेषामनितरसुलभं तद्धामहस्तापचेयम् सकृतविभुवनेऽस्मिन् शार्घिणः पदुगे त्वामुपनिषदनुकल्पैरुतमाङ्गैर्दधानाः नरकमिव महान्तो नागमुल्लङ्घयन्तःपरिषदि निविशन्ते प्राक्तनानां गुरूणाम् शमदमगुणदान्तो दन्तवैदेशिकानां शरणमशरणानाम् मादृशां माधवस्य पदकमलमिदं ते पादुके रक्ष्यमासीदनुदयनिधनामागमानां निधानम् परिचितपदपद्मां पादुके रङ्गिणस्त्वां त्रिभुवनमहनीयां सादरं धारयन्तः निजशिरसि निलीनं देवीं मन्दारमाल्यम् निगमपरिमलैस्ते वासयन्दीवदेवाः कनकसरिदनूपे का कल्पवृक्षस्य भूष्णोः पदकिशलयलग्नापादुके मञ्जरी त्वं परिणदिमधुराणां या फलानां सवित्री वहसि निगमवृन्दैः सम्पदं षट्पदानां परिकलयसि चेन्मां पद्मवासा निषेव्ये पदकमलयुगे त्वं पादुगे रङ्गभर्तुः अविदितनिगमानां नूनमस्मादृशानामखडितखडनीते शक्तिराविष्कृता स्यात् हरिणि श्रुतिशद शिरश्चोडापीडे निपीडयितुं क्षमे दुरितसरिदा मोखानेदानमोकविसर्पिणः क्रमपरिणमद्वेधश्रेणीचिखामणिखट्टनान्मशृणिततले रङ्गक्षोणीभृतो मणिपादुके जगज्जननगिनो रङ्गिणः पवित्रदममाद्रिये भगवतः पदत्रद्वयं शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनम् प्रधाव्यचरणं निजम् प्रणिदधादि यत्र प्रभुः यदध्वरभुजां शिरःपदयुगं च रङ्गेशिदुर्दृढं कडयितुं क्षमं भवति शेषशेषित्वदः शिरस्त्रमिदमस्तु मे दुरिदसिन्धुमुष्टिन्धयं समत्षिपति चेत सि तवगी मुकुंदमणिपादुगे मुहुरुवासना वसना उदर्कर्कशानुपरीपर्वण्र्विद ननर्थशतगर्भिधान नमर शंभली विभ्रमा विगाहन्धेरङ्गक्षितिपदिपदत्रायणिसहृद्वहन्धस्त्वामन्दर्विनिहितकुचेलव्यधिकराः मदोद्धामस्तम्भे रमकरडनिल्यन्मधुच्चरी परीवाहप्रेम्खभ्रमरमुखरामं गणभुवम् वसन्तमालिका अधिदैवदमाप तत्सुकल्पेष्वधिकारं भजदां पिता महानाम् अभिरक्षदुरङ्गभर्तुरेषा करुणाकाजनपादुकामयीनः ध्रुवमिन्द्रियनागशृङ्गला वा निरयद्वारनिवारणार्गला वा अनयापपदाधिरोहिणी वा मम रङ्गेशविहारपादुके त्वं शरणागदसार्थवाकशीलां श्रुति सीमन्दपदप्रसादनार्हाम् अधिरङ्गमुपास्महे मुरारेर्महनीयां तपनीयपादुके त्वाम् इहये भवतीं भजन्ति भक्र्या कृधि न केशवपादुके नियुक्ताः कदयाम्बतिरोहितं तृतीयं नयनं त्रीणि मुखानि वा समेदा, मधुवैरीपरिग्रहेशुं क्षमयादुकेशद भी क्षमस न किं परिदशाधीशेखरेवेश्वित प्रदीय रंग भर्तु कदिकादुक शरण्यं। अभयान्विदमग्रिमं करं वा भवती शेखरिदम्पदाम्बुजं वा परदाश्वसनेषु पादशब्दं वसुधाश्रोत्रसमुद्भवो श्रोत्रसमुद्भवो मुनीन्द्रः पठति त्वयि नियदं ततस्त्वं नियतं रामपदादभिन्नभूमः मकुटेषु निविश्य दिक्पदीनां पदमेव प्रतिपद्य रङ्गभर्तुः परिरक्षसि पादुगे पदं त्वं क्वनु भिद्येद गरीयसां प्रभावः जगदामभिरक्षणे त्रयाणामधिकारं मणिपादुगे वहन्त्योः युवयोः परिकर्म कोटिलग्नं चरणद्वन्द्वमवैमि रङ्गभर्तुः वत्सला निकामं रघुवीरस्य पदाम्बुजादपि त्वं यदसौभरदस्त्वयां शवत्वान्न पुनस्तादृशमन्वभूद्वियोगम् अभिगम्य मुकुन्दपादुके त्वामपनीता तपवारणै शिरोभिः हरितां पदयो दुरापमन्यैरणकच्छायमवान्पुवन्ति भोगम् अपहायसितासितानुपायानरविन्ते क्षणपादुके महान्तः त्वदनन्यतया भजन्तिवृत्तिं त्वदसाधारणभोगसाभिलाषाः प्रणमन्दिन वा विधेर्विपाकाद्य इमे रङ्गनरेन्द्रपादुके त्वाम् उपजातमनुत्तमाङ्गमेषामुभयेषामपि चित्रमुत्तमाङ्गम् तव केशव पादुक के प्रभ मम दुष्कर्म चन्वनंदसारे नि तथा पश्चिम से प्रथम नाभव प्रदी रथोदता अस्त्रूषणत कवल विश्वमेतदखिलं बिभर्ति यः अक्लमेन मणिपादुके त्वया सोऽपि शेखरतयैव धार्यते रामपादसहधर्मचारिणीं पादुके निखिलपादकच्छितं त्वाम शेषजगदामधीश्वरीं भावयामि भरताधिदेवता चूडाकपालव्यधिशङ्गदोषं विमोचयिष्यन्निव विष्णुपद्याः कृदा धर केशवपादरक्षे बिभर्ति बालेन्दुविभूषणस्त्वाम् उपजाति त्वयैव नित्यं मणिपादरक्षे राजन्वदीसृष्टिरियं प्रजानां स्त्रीराज्यदोषप्रशमाय नूनं निर्दिश्यसे नाथविशेषणेन बिभर्षि नित्यं मणिपादुके त्वं विश्वम्भरं धाम निजेन भूम्ना तवानुभावस् चुकीय भक्तरजस्रंदी दधान पर पुस पदसन्नीकर्षे तोल्याम मणिपादुके तां उत्तम स ये स्वयुत्तम शेषा शुत् मुकुन्तपादाम्बुजधारिणी त्वां मोहादनुत्तं सयतां जनानां मूर्ध्नि स्थिदा दुर्लिपयो भवन्ति प्रशस्तवर्णावलयस्तदीयाः भूमिश्रुतीनां भुवनस्य धात्री गुणौरनन्दा विपुला विभूत्या स्थिराः स्वयम् पालयितुं क्षमानः सर्वं सहा शौरिपदावनित्वम् स्थैर्यम् कुलक्षोणिभृदाम् विदत्से शेषादयस्त्वाम् शिरसा वहन्ति पदप्रसूदा परमस्य पुंसः पृथ्वीमहिम्ना मणिपादुके त्वम् इन्द्रवज्र दैत्याधिपानां बलिनां किरीडा निक्षेपणं ते यदि नाभ्यनन्दन् रङ्गेशपादावनि रङ्गधां न शोभानं प्राप्य वहन्त्यमीत्वा शेषो गरुत्मान्मणिपादपीडी त्वं चेदि पादावनि विश्वमान्याः तुल्याधिकारा यदि किन्तु सन्तस्त्वामेव नित्यं शिरसा वहन्ति उपजाति परस्य पुंसः परमं पदं तद्बिभर्षि नित्यं मुनिपादुगेत्वम् अन्यादृशां व्योमः सदां पदानि त्वय्यायदन्ते यदिदं न पादौ मुरारेः शरणम् प्रजानां तयोस्तदेवासि पदावनित्वम् शरण्यतायास्त्वमनन्यरक्षा सन्दृश्यसे विश्रमभूमिरेका अन्येषु पद्मा कमलासनाद्यै रङ्गेषु रङ्गाधिपदे श्रुतेषु पदां वनित्वामधिगम्यजादं पदं मुरारेरधिदैवतं नः क्षणं सरोजे क्षणपादुके ह्यः कृदाधरः किङ्कुरुदे भवत्याः अकिञ्चिनस्यापि भवन्ति शीघ्रं भ्रू किङ्गरास्तस्य पुरन्तराद्याः वहन्ति माधव माधवपादुके त्वा मुह्यन्तयेदे दिवि निर्विकादाः हंसेन नित्यं शरदभ्रभासा कैलासगौरेण कगुद्मदा वा रुद्रं सिदोद्देवगणः स रुद्रः पद्मासनं सोऽपि जद्मनाभम् सवामंदो न पुनस्तम कैश पाद वे प्रभाव पर से धा प्रतिदना वद्यां मणिपादु वां यतस्तविगे प्रजा दूरीरपूह धन्यामुकुन्दस्य पदानुशङ्काद्धनीयदा येन समर्चिता त्वं वा सस्तदीयो मणिपादरक्षे लक्ष्म्यालकामप्यधरीकरोति पदेन विष्णोः किमुते दरेषां विसृज्य सङ्गं समुपासदे करोषि तान् त्वमपेतकामान् कालेन पादावनि सत्यकामान् इन्द्रवज्र अभ्यासयोगेन निगृह्यमाणैरन्धर्मुखैरात्मविदो मनोभिः मादस्त्वया गुप्तपदं प्रभावादन्वेषयन्त्यागमिकं निधानम् उपजाति मूर्ध्् दधा मणिपादुेवा मुत्म सिद्धंवा पुरषंव वदंधे के जिद्वयम नमस्मे साक्षा दधिदत नीति मूर्ध्ना सदाधस्ता दुबरी च विषो पद न अदवीयसीं विमुक्तेः पदवीमवयन्तिपादुके भवतीम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे प्रभाव पद्धति तृतीया